अथ अभिवाद्यतु सर्गः अभिवाद्य कौसल्याम् रामः सम्प्रस्थितो वनम् कृतः मात्रा धर्मिष्ठे वर्त्मनि स्थितः विराजयन् राजसुतो राजमार्गम् नरैर्वृतं। हृदयान्याममन्थेव जनस्य गुणवत्तया वैदेही चापि तत्सर्वम् न तपस्विनी तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् देवकार्यम् स्म सा कृत्वा राजपुत्री राज प्रतीक्षती प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम् प्रहृष्टजनसम्पूर्णम् अथ सीता समुत्पत्य वेपमाना अपश्यच्छोकसन्तप्तम् चिन्ता व्याकुलितेन्द्रियम् ताम् दृष्ट्वा स हि धर्मात्मा न शशाकमनोगतम् तम् शोकम् ततो विवृततांगतः। गतः निवर्णवदनम् दृष्ट्वा तम् प्रस्विन्नममर्षणम् आह दुःखाभिसन्तप्ता किमिदानीमिदम् प्रभो अद्य बारहस्पतः श्रीमान् राघव प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मणाः न ते शतशलाकेन जलफेन निभेन च आवृतम् वल्गुच्छत्रेणाभिविराजते यजनाभ्याम् च मुख्याभ्याम् शतपत्रनिभे क्षणम् चन्द्रहंसप्रकाशाभ्याम् नतवाननम् वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वान्नरर्षभा स्तुबन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः न ते क्षौद्रम् च दधि ब्राह्मणा वेदपारगाः मूर्ध्नि मूर्धापि शिक्तस्य ददति स्मभिधानतः न त्वाम् प्रकृतयः सर्वाः पौरजानपदास्तथा चतुर्भिर्वेगसम्पन्नैर्हयैः का काञ्चन भूषणैः मुख्यः पुष्परथो युक्तः किम् न गच्छति ते ग्रतः न हस्ती चाग्रतः श्रीमान् सर्वलक्षणपूजितः प्रयाणे लक्ष्यते वीरकृष्णमेघगिरिप्रभः न च काञ्चन चित्रम् ते पश्यामि प्रियदर्शन भद्रासनम् पुरस्कृत्य यान्तम् अभिषेको यदा सज्जः किमिदानीमिदम् अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते इतीव विलपन्तीम् ताम् प्रोवाच सीते तत्र भवां स्तातः वनम् कुले महति सम्भूते धर्मज्ञे धर्मचारिणी शृणु जानकि मम राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै कैकेय्यई मम मात्रे तो पुरा दौ महाबरौ तयाद मज्जेस्ेके नृपोदर्मेण प्रतिर्जि चतुर्दश हि वर्षा वस्तव्यं दंडके मा मे भरतराज्ये निजिता सोहं तागत दृष्टु प्रस्थि विजनम वनम भरतस्य समीपे कथ्यह नाहम् कथ्यः कदाचन वृद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् तस्मान्न ते गुणाः कथ्या, कथ्या भरतस्याग्रतो मम अहम् तेनानुवक्तव्यो विशेषेण कदाचन अनुकूलतया शक्यम् समीपे तस्य वर्तितुम् तस्मै दत्तम् नृपतिना यौवराज्यम् सनातनम् सप्रसाद्यस्त्वयासीते नृपतिश्च विशेषतः अहम् चापि प्रतिज्ञाम् ताम् गुरोः समनुपालयन् वनमद्यैव यास्यामि स्थिरीभवमनस्विनी या ते च मयि कल्याणि वनम् मुनिनिषेवितम् व्रतोपवासपरया भवितव्यम् त्वया नघे कल्यमुत्थाय देवानाम् कृत्वा पूजाम् यथाविधि वन्दितव्यो दशरथः पिता मम जनेश्वरः माता च मम कौसल्या वृद्धा सन्तापकर्षिता धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति वन्दितव्याश्च ते नित्यम् या मम मातरः स्नेहप्रणयसम्भोगैः समाहि मम मातरः भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः या भर शुघ्नौ प्राण प्रियतरौ मम विप्रिय कर्तव्य भरत से कदाचन स ही राजा चैदे देश से चुस्त आराधिता शील प्रयत्नोपेता सीदं तिपुप्यं तिवर्ये ओरसयानपुत्रि त्यजकारिण समर्थान् सम्प्रगृह्णन्ति जनानपि सात्वं वसेह कल्याणि राज्ञः समनुवर्तिनी भरतस्य रता धर्मे सत्यव्रतपरायणा अहङ्गमिष्यामि महावनम् प्रिये त्वया हि वस्तव्यमिहैव भामिनी यथा कुरुषेण कस्यचित् तथा त्वया वचो मम शे श्रीमद्राणे वाल्मीक आदि का्योध्या षड्श सर्ग